ओङ्कारवाच्यरूपम् पदनतजनमान्द्यवारणपटिष्ठम् चिन्मुद्रिकाड्यहस्तम् सततम् प्रणमामि दक्षिणामूर्तिम् नयनीकृतसूर्यानलचन्द्रमसम् चन्द्रमा नतिमात्र नतिमात्रतुष्टहृदयम् सततं प्रणमामि दक्षिणामूर्तिम् मोहद्वान्तविभेदन चैढकरम् तुण्डुमुख्यगणसेव्यम् मोहाचितनतजननिकरम् सततं प्रणमामि दक्षिणामूर्तिम् भसित विभासितगात्रम् ब्रह्माश्मसमानबुद्धिदानचणम् भक्तजनकल्पवृक्षम् सततम् प्रणमामि दक्षिणा मूर्तिम् गद्यश्लोकमयीर्वाङ्निस्सरति विना प्रयत्नलेशमपि यद्भक्ताननतस्थम् सततं प्रणमामि दक्षिणामूर्तिम् वचनैस्तुत्यमकृतकैः वन्दनवेला प्रतिशमाणसुरम् वरवरदम् परभाभ्यः सततम् प्रणमामि दक्षिणाभूक्तिम् ते पेयद्भार्यात्वप्राप्त्यै शिखरे गौरीजितमारं तं सततं प्रणमामि दक्षिणा मूर्तिम् दलितनतापन्निकरं दया मुनिकरमीक्षमाणमहम् दमशमविरक्तिलब्ध्यै सततं प्रणमामि दक्षिणा मूर्तिम् क्षितिजलवन्निसमीरण गगनेन्दु भाग्निहोत्रिणस्तनवग यस्य श्रुत्युक्तास्तं सततं प्रणमामिदक्षिणा <laughs> मूर्तिम् नाकारगर्भशरगतरक्षणदीक्षम् तरक्षुचर्मधरम् श्रीमद्गुरुवररूपम् सततम् प्रणमामि दक्षिणामूर्तिम् मूर्तम् च मूर्तमपि प्रतिषिध्य हि नेति नेति वाक्यवशात् द्रक्ष्यन्ति यम् सुकृतिनः सततं प्रणमामि दक्षिणा मूर्तिम् तप्तस्य तीव्रसंसृति चण्डां सुगभस्तिभिस्मृतिर्यस्य राकाचन्द्रसखीतम् सततं प्रणमामि दक्षिणा मूर्तिम् ये वैराग्यविवे मादिमषड्का भवद्गताक्षाड्याः त्रैरात्रिम् इव चिन्त्यम् सततम् प्रणमामि दक्षिणामूर्तिम् महिमानम् यस्य श्रुतिरपि सम्पक्तुम् हि शक्नुतेनैव मन्देतरलभ्यं तम् सततं प्रणमामि दक्षिणातिम् ह्रियम् भुजतो यस्य पदे सम्पूज्य समर्थरासजनसर्गे पवने भुजनेत्रस्थम् सततं प्रणमामि दक्षिणाम् मेनातनूभवा परिरब्धाङ्गम् मे च काभनिजकण्ठम् मेधाप्राप्त्यै सततम् प्रणमामि दक्षिणामूर्तिम् धामपरम् शिरतरमननादिसाधनावाप्यम् यत्नं विना कृपाब्धिम् सततम् प्रणमामि दक्षिणा मूर्तिम् प्रतिभागितसुरगुरा सततं प्रणमामि दक्षिणा मूर्तिम् ज्ञां प्राद्यामतिविमला यन्नैसर्गिककृपालवस्तनुते सकृदविवरणेतं सततं प्रणमामि दक्षिणामूर्तिम् प्रयतम् तेयम् द्रष्टुम् सल्मनुजाश्रवणचिन्तनध्यानैः सच्चित् सुखरूपम् तम् सततम् प्रणमामि दक्षिणामूर्तिम् यस्यान् पिष्यद्भ्यामपि दृष्टम् नैवाङ्गृशीर्षमधियत्नात् विष्णुविभ्यान्तम् सततम् प्रणमापि दक्षिणामूर्तिम् शन्नमविद्या तमस सततम् प्रणमा वि दक्षिणा मूर्तिम् स्वाकार विजित मनसि जदर्पम् सर्पेश भूषितग्रीवम् स्वाहासकाय तिलकम् सततम् प्रणमा विदक्षिणा मूर्तिम् हाहुहू गेयम् हान्यै बाह्यन्तरीण शत्रूणाम् हासलसदास्य कवलम् सततम् प्रणमाभि दक्षिणामूर्तिम् मन्वक्षरघटितमिदम् स्तोत्रम् श्रीदक्षिणामूर्तेः व्यरचिमया गुरुकृपया समर्पितं देशिकेन्द्रचरणाब्जे